अथ द्वाविंशः सर्गः अथोवाच रघुः श्रेष्ठः सागरम् दारुणम् वचः अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव शरनिर्दग्धतो यस्य परिशुष्कस्य सागर मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् मत्कार्मुकविसृष्टेन शरवर्षेण सागर परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवम् गमाः विचिन्वन्नाभिजानासि पौरुषम् नापि विक्रमम् संतापं मत्तो नाम गमिष्यसि ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् संयोज्य धनुष्यश्रेष्ठे विचकर्ष महाबलः तस्मिन् विकृष्टे सहसा राघवेण रोदसी सम्प फालेव पर्वताश्च चकम्पिरे तमश्च लोकमावव्रे दिशश्च न चकाशिरे प्रतिचुक्षुभिरे चाशुसराम् सरितस्तथा तिर्यक्चसः नक्षत्रैः सङ्गतौ चन्द्रभास्करौ भास्करांशुभिरादीप्तम् तमसा च समावृतम् प्रचकाशे तदाकाशमुल्काशत विदीपितम् अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः वपुः प्रकर्षेण ववुर्दिव्यमारुतपङ्क्तयः बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः आरुजंश्चैव शैलाग्राञ्छिखराणि बभम्ज च यानि भूतानि दृश्यानि चुक्रुशुश्चाशनयः समम् अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् शिष्यरेचाभिभूतानि सन्त्रस्तान्युद्विजन्ति च सम्प्रविव्यथिरेचापि न च पस्पन्दिरेभयात् सह योजनम् यति चक्रामवेलामन्यत्र सम्प्लवात् तम् तथा समतिक्रान्तम् नातिचक्रामराघवः समुद्धतममित्रघ्नो रामो नदनदीपतिम् ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः पन्नगैः सह समुद्रः प्रत्यदृश्यता स्निग्धवैदूर्यसङ्काशो जाम्बूरदविभूषणः रत्नमाल्याम्बरधरः पद्मपत्रनिभेक्षणः सर्वपुष्पमयीम् दिव्याम् शिरसाधारयन्स्रजम् जातरूपमयैश्चैव तपनीय विभूषणैः आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः धातुभिर्मण्डितः शैलो एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् विपुलेनो रसा बिभ्रत् कौस्तुभस्य सहोदरम् आघोर्निततरङ्गौघः कालिकानिलसङ्कुलः गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः देवतानाम् स्वरूपाभिर्नानारूपाभिरीश्वरः सागरः समुपक्रम्य पूर्वमा मन्त्र्यवीर्यवान् अब्रवीत् प्राञ्जलिर्वाक्यम् राघवम् शरपाणिनम् पृथिवी वायुराकाशमापो ज्योतिश्च राघवा स्वभावे सौम्य तिष्ठन्ति तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः विकारस्तु भवेद्गाध एतत्ते प्रवदाम्यहम् न ग्रामान्न च लोभाद्वानभयात्पार्थिवात्मजा ग्राहनक्राकुलजलम् स्तम्भयेयम् कथञ्चन विधास्येयेन गन्तासि विषहिष्येऽप्यहम् तथा न, न विधमिष्यन्ति यावत् सेनातरिष्यति हरीणाम् तरणे राम करिष्यामि यथा स्थलम् तमब्रवीत्तदा राम अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यता रामस्य वचनम् श्रुत्वा तम् दृष्ट्वा महाशरम् महोदधिर्महातेजा राघवम् वाक्यमब्रवीत। उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् उग्रदर्शनकर्माणो बहवस्तत्र आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः अमोघः क्रियताम् राम अयम् तत्र तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः मुमोचतम् शरम् दीप्तम् सागरदर्शनात् तेन तन्मरुकाम् तारम् पृथिव्याम् किल निपातितः शरो यत्र वज्राशनि समप्रभः ननादच तदा तत्र वसुधा शल्यपीडिता तस्माद्व्रणमुखात्तोऽयमुत्पपातरसातलात् सबभूव तदा कूपो व्रण इत्येव विश्रुतः सततम् चोत्थितम् दृश्यते अवदारणशब्दश्च दारुणः तस्मात्तद्बाणपातेन अपः कुक्षिष्व शोषयत् विख्यातम् त्रिषु लोकेषु मरुकान्तारमेव च शोषयित्वा तु तम् रामो दशरथात्मजः वरम् तस्मै ददौ मरवे मरविक्रमः पशव्यश्चाल्परोगश्च फलमूलरसायुतः बहु स्नेहो बहुक्षीरः एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः रामस्य वरदानाच्च शिवः पन्था बभूवः तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः राघवम् अयम् सौम्यनलो नाम तनयो विश्वकर्मणः पित्रा दत्तवरः श्रीमान्प्रीतिमान् विश्वकर्मणः एष सेतुम् महोत्साहः करोतु मयि वानरः तमहम् धारयिष्यामि यथा ह्येष पिता तथा एवमुक्तो दधिर्नष्टः समुत्थाय नलस्ततः अब्रवीद्वानरः श्रेष्ठो वाक्यम् रामम् महाबलम् अहम् सेतुम् करिष्यामि विस्तीर्णेमकरालये पिजः सामर्थ्यमासाद्य दण्ड एव वरो लोके पुरुषस्येति मे मतिः धिक्ष माम दानमथापिवा। सान्त्वम् दानमथापि वा अयम् हि सागरो भीमः सेतुकर्म दिदृक्षया ददौ दण्डभयाद्गाधम् राघवाय महोदधिः मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा मया तु पुत्रस्तव देवि भविष्यति पौरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा स्मारितोऽस्म्यहमेतेन तत्त्वमाहमहोदधिः न, न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान् समर्थश्चाप्यहंसेतुम् कर्तुम् वैव रुणालये तस्मादद्यैव बध्रम् सेतुम् वानरपुङ्गवाः ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः उत्पेततुर्महारण्यम् हृष्टाः शतसहस्रशः तेन गान्नगसङ्काशाः शाखामृगगणर्षभाः बभञ्जः पादपांस्तत्र प्रचकर्षुश्च सागरम् ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः कुटजैरर्जुनैस्तालैस्तिलकैस्तिलिशैरपि बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः चूतैश्चाशोकवृक्षैश्च सागरम् समपूरयन् समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः इन्द्रकेतूनि बोद्यम्य प्रजह्रुर्वानरास्तरून् तालान्दाडिमगुल्मांश्च नारिकेलविभीतकान् करीरान् बहुलान् निम्बान् समाज हृरितस्ततः हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम् समुत्ससर्प समुद्रम् शोभयामासुर्निपतन्तः समन्ततः सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् नलश्चक्रे महासेतुम् मध्ये नदनदीपतेः सतदा क्रियते सेतुर्वानरैर्घोरकर्मभिः दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बन्धिरे पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वा नराः पाषाणांश्च गिरिप्रख्यान् गिरीणाम् शिखराणि च दृश्यन्ते परिधावन्तो गृह्यतानवसन्निभाः शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् बभूवतु मुलः शब्दस्तदा तस्मिन्महोदधौ कृतानि प्रथमेनाह्नायोजनानि चतुर्दश प्रहृष्टैर्गजसङ्काशैस्वरमाणैः प्लवङ्गमैः द्वितीयेन तथैवाह्नायोजनानि तु विंशतिः कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः अह्ना तृतीयेन तथा योजनानि तु सागरे स्वरमाणैर्महाकायैरेकविंशतिरेव च चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा योजनानि महावेगैः कृतानि त्वरितैस्ततः पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै स वा विश्वकर्मात्मजो बली बबन्धसागरे सेतुम् यथा चास्य पिता तथा सनलेन कृतः सागरे मकरालये शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ततो देवाः स सिद्धाश्च परमर्षयः आगम्यगगने तस्थुर्द्रष्टुकामास्तदद्भुतम् दशयोजन विस्तीर्णम् शतयोजनमायतम् ददृशुर्देव गन्धर्वा नलसेतुम् सुदुष्करम् आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः तम चिन्त्यमसह्यम् च ह्यद्भुतम् लोमहर्षणम् ददृशः सर्वभूतानि सागरे सेतुबन्धनम् तानि कोटिसहस्राणि वानराणाम् बध्नन्तः सागरे सेतुम् जग्मुः पारं महोदधे विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः अशोभतमहान् सेतुः सीमन्त इव सागरे ततः पारे समुद्रस्य गदा पाणिर्विभीषणः परेषामभिघातार्थमतिष्ठत्सचिवैः सह सुग्रीवस्तु ततः सत्यपराक्रमम् हनुमन्तन्त्वमारोह अङ्गदन्त्वथ लक्ष्मणः अयम् हि विपुलो वीरसागरो मकरालयः वैहायसौ युवामेतौ वानरौ धारयिष्यतः अग्रतस्तस्य सैन्यस्य श्रीमान् रामः स लक्ष्मणः जगामधन्वी धर्मात्मा सुग्रीवेणसमन्वितः अन्ये मध्ये न गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः सलिलम् प्रपतन्त्यन्ये मार्गमन्ये प्रपेदिरे केचिद्वैहाय सगताः सुपर्णा इव पुप्लुवुः घोषेण महता घोषम् सागरस्य समुच्छ्रितम् भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी वानराणाम् हि सातीर्णा वाहिनी नलसेतुना तीरे निविविशे राज्ञो बहुमूल फलोदके तदद्भुतम् राघव कर्म दुष्करं समीक्ष्य देवाः सह उपेत्य रामम् सहसा महर्षिभ्यस्तमभ्यषिञ्चन् सुशुभैर्जलैः पृथक् जय स्व शत्रून्नरदेव मेदिनीम् ससागराम् पालय शाश्वती समाः तीव रामम् नरदेव सत्कृतम् शुभैर्वचोभिर्विविधैरपूजयन् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः